थाशीतितमः सर्गः मकराक्षम् हतम् श्रुत्वा रावणः रोषेण महता विष्टो दन्तान् कटकटाय्य कुपितश्च तदा तत्र किम् कार्यमिति चिन्तयन् आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितम् सुतम् जहि वीरमहावीर्यौ भ्रातरौ रामलक्ष्मणौ अदृश्यो दृश्यमानो वा सर्वथा त्वम् बलाधिकः त्वमप्रतिमकर्माणमिन्द्रम् जयसि संयुगे किम् पुनर्मानुषौ दृष्ट्वानवधिष्यसि संयुगे तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः यज्ञभूमौ स विधिवत् पावकम् तत्राग्निम् रक्तोऽष्णीषधरा आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः लोहितानि च वासांसि स्रुवम् कार्ष्णायसम् तथा सर्वतोऽग्निम् समास्तीर्यशरपत्रैः सतोमरैः छागस्य सर्वकृष्णस्य गलम् जग्राह जीवतः सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः बभूवुस्तानि लिङ्गानि विजयम् दर्शयन्ति च प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः हविस्तत्प्रति जग्राह पावकः स्वयमुत्थितः हुत्वाग्निम् तर्पयित्वाथ देवदानवराक्षसान् आरुरोहरथ श्रेष्ठमन्तर्धानगतम् शुभम् सबाजिभिश्चतुर्भिस्तु आरोपितमः चापशुशुभे स्यन्दनोत्तमः जाज्वल्यमानो वपुषा तपनीय स बभूवदुराधर्शो रावणिः सुमहाबलः स्वभिनिर्याय नगरादिन्द्रजित् समिति जयः हुत्वाग्निम्राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् अद्य करिष्ये परमाम् प्रीतिमित्युक्त्वान्तरधीयत आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः तीक्ष्णकार्मुक नाराचैस्तीक्ष्णस्विन्द्रिपूरणे सददर्शमहावीर्यौ नागौ त्रिशिरसा विव सृजन्ता विशुजालानि वीरौ वानरमध्यगौ इमौ ताविति सञ्चिन्त्य सज्जम् कृत्वा चकार्मुकम् सन्ततानेषु धाराभिः पर्जन्य इव वृष्टिमान् वैहाय सरथो युधितौ रामलक्ष्मणौ अचक्षुर्विषये तिष्ठन् विव्याधनिषितैः शरैः तौ शरवेगेण परीतौ रामलक्ष्मणौ सशरे कृत्वा दिव्यमस्त्रम् प्रचक्रतुः प्रच्छादयन्तौ गगनम् शरजालैर्महाबलौ तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पर्शतुःश्शरैः सहि धूमान्धकारम् च चक्रे प्रच्छादयन्नभः दिशश्चान्तर्दधे श्रीमान्निहारतमसावृताः नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः शुश्रुवे च रतस्तस्य प्रकाशते घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम् सवर्षमहाबाहुर्नाराच शरवृष्टिभिः सरामम् सूर्यसङ्काशैः शरैर्दत्तवरैर्भृशम् विव्याधसमरे क्रुद्धः सर्वगात्रेषु रावणिः तौ हन्यमानौ नाराचैर्धाराभिरिवपर्वतौ हेमपुङ्खान्न रव्याघ्रौ तिग्मान् मुमुचतुःश्शरान् अन्तरिक्षे समासाद्य रावणिम् कङ्कपत्रिणः निकृत्यपतगा भूमौ पेतुस्ते शोणिता प्लुताः अतिमात्रम् शरौघेण दीप्यमानौ नरोत्तमौ तानिषून्पततो भल्लैरनेकैर्विचकर्ततुः यतो हि ददृशा ते तौ रावणिस्तु दिशः सर्वा रथे नातिरथोपतत् विव्याधतौ दाशरथी लघ्वस्त्रो निशितैः तेनाति तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः बभूवतुर्दाशरथि पुष्पिताविव किम् शुकौ नास्य वेगगतिम् कश्चिन्न च रूपम् धनुःशरान् न चास्य विदितम् तेन विद्धाश्च हरयो निहताश्च गता सवः बभूवश्यतशस्तत्र पतिता धरणीतले लक्ष्मणस्तु ततः क्रुद्धो भ्रातरम् वाक्यमब्रवीत् ब्राह्ममस्त्रम् प्रयोक्ष्यामि वधार्थं सर्वरक्षसा तमुवाच ततो रामो लक्ष्मणम् शुभलक्षणम् नैकस्य हेतो रक्षांसि पृथिव्याम् हन्तुमर्हसि अयुध्यमानम् प्रच्छन्नं प्राञ्जलिम् शरणागतम् पलायमानम् मत्तम् वा न हन्तुम् त्वमिहार्हसि तस्यैव करिष्यामि महाभुजा आदेक्ष्यामो महावेगा नस्त्रा तमेनम् मायिनम् क्षुद्रमन्तर्हितरथम् बलात् राक्षसम् निहनिष्यन्ति दृष्ट्वा वानरयूथपाः यद्येष भूमिम् विशते दिवम् वा रसातलम् वापि वा एवम् विगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः इत्येवमुक्त्वा वचनम् महार्थम् रघु प्रवीरः वधाय रौद्रस्य नृशंस कर्मणस्तदा महात्मा निरीक्षते शे श्रीमद्राणे वाक आदि का्ये युद्धकांडे अशीतित सर्ग